अथ चत दशक्यशैलोद्धरणादिप प्रभाईस्तव गोपलोका विरम विश्वेश्वरं वि नंदमजातमन विश्वे गर्गोदि निर्गदि निजा वर्गायता ते नव प्रभा पूर्वाधिकनुराग य मैधिष्ट तावद् बहुमानभारः ततोऽवमानोदित तत्त्वबोधः सुराधिराजः सः दिव्यगव्या उपेत्य च जातहर्षः जगत्त्रयेशे त्वयि गोकुलेशे तथाभिषिक्ते सति गोपवाटः न केऽपि वैकुण्ठपदेऽप्यलभ्याम् श्रियम् प्रपेदे भवतः प्रभावात् प्रभाते स्नायन् पिता नीतस्तमाने नीतस्तमानेतुमगाः त्वम् ुणीम् कारणमर्त्यरूपः स सम्भ्रमम् तेन जलाधिपेन प्रपूजितस्त्वम् प्रतिगृह्यता तम् उपागतस्तत्क्षणमात्मगेहम् पिता निजेभ्यः हरिम् विनिश्चित्य भवन्तमेतान् भवत्पदालोकनबद्धतृष्णान् निरीक्ष्य विष्णो परमम् पदम् तद्दुरापमन्यैस्त्वमदीदृशस्तन् स्फुरत्परानन्दरसप्रवाह प्रपूर्णकैवल्यमहापयोधौ चिरम् निमग्नाः खलु गोपसङ्घास्त्वयैव भूमन् पुनरुद्धृतास्ते करबदरवदेवं देवम् देव परपदमनवाप्यं दर्शितं भक्तिभाजाम् तदिह पशुपरूपीत्वं त्वम् हि साक्षात्परात्मा पवनपुरनिवासिन् पाहि मा इति चतुष्षष्टम् दशकम्